भगवद्गीता चाप्टर् फैव् वर्षस् वन् टु टेन् अथ पञ्चमोऽध्यायः अर्जुन उवाच संन्यासं कर्मणां कृष्णपुनर्योगं च शंससि यच्छ्रेययेदयोरेगं तन्मे ब्रूहि सुनिश्चितं श्रीभगवानुवाच संन्यासकर्मयोगश्च निःश्रेयसकरावुभौ तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ज्ञेयस्स नित्यसंन्यासी यो न द्वेष्टिनकाङ्क्षति निर्द्वन्द्वोकि महाबाहो सुखम्बन्धात् प्रमुच्यते साङ्घ्ययोगौ पृथक् बाला पण्डिताः मप्यास्तिदः सम्यगुभयोर्विन्ददे फलम् यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरभिगम्यते येकं साङ्ख्यं जयोगं जयः योगयुक्तो मुनिर्ब्रह्मणचिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजिदात्माजिदेन्द्रियः सर्वभूतात्मभूधात्मा कुर्वन्नभि न लिप्यते नैव किञ्चित् करोमिति युक्तो मन्ये दत्त्ववित् पश्यन् शृण्वन् पृशन् जिघ्नन्नश्नन् गच्छन् स्ववन् श्वसन् प्रलभन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नभि इन्द्रियाणीन्द्रियार्थेषु वर्तन् इति धारयन् ब्रह्मण्यादाय कर्माणि सङ्गन् त्यक्त्वा करोति यः लिप्यतेन स पापेन पद्मपत्रमिवाम्बसा भगवद्गीता चाप्टर् फैव् वर्सस् इलेवन्त् ट्वेण्टि कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनकर्म कुर्वन् विगं त्यक्त्वात्मशुद्धये युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोदि नैष्टिकीम् अयुक्तः कामकारेण न कर्तृत्वं न कर्माणि लोगस्य सृचति प्रभुः न कर्मफलसं योगं स्वभावस्तु प्रवर्तते नादत्ते कस्यचित्पापन्न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानन्तेन मुह्यन्ति जन्तवः तु तदज्ञानं येषां नाशिदमात्मनः तेषामादित्यवज्ञानं प्रकाशयदितत्परं। तत्परम् तद्बुद्धयस्तदात्मानस्तन्निष्ठस्तत्परायणाः गच्छन्त्य पुनरावृत्तिं विद्याविनयसम्पन्ने ब्राह्मणे गविरस्तिनि शुनि चैव शोभाकेजपण्डिता समदर्शिनः इहैव तैर्जिदः सर्गो येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते न प्रशिष्ये प्रियं प्राप्य नो द्विजे प्राप्य च प्रियं Chapter 5, चाप्टर् 21 वर्षस् भाष्यस्पर्शे स्वसकत्रात्मा विन्द्यात्मनि यत् सुखम् स ब्रह्मयोगयुग्रात्मा सुखमक्षयमश्नु ये संस्पर्शगा भोगा दुःखयो नय एव शक्नो दीहैव यः सोढुं प्राक् शरीरविमोक्षणात् वेगं स युक्तः स सुखी नरः योऽन्तः सुखोन्तरारामस्तदान्तर्ज्योतिरेव ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति लबन्दे ब्रह्म न रुवाण ऋषयक्षीण कल्मषाः छिन्नद्वैधा यदात्मानः सर्वभूतविदे रताः कामप्रोदवियोग्राणाम् यदीनां यदचेदसाम् अभितो ब्रह्म निरुवाणम् वर्तते विदिदात्मनाम् र्चान् कृत्वा बहिर्बाह्यञ्चक्षुश्चैवन्तरे भ्रुवोः प्राणापानौ क्षमौ कृत्वा नासाभ्यन्तरचारिणौ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः विशदेशाभयक्रोधो यः सदा मुग्र एव तथा गोत्रालम् यज्ञ भवसाम् सर्वलोकमहेश्वरम् सुहृदम् सर्वभूतानाम् ज्ञात्वा माम् शान्तिमृच्छति ओम् तत्सद् यदि श्रीमद्भगवद्गीतासूपनिषत्सु पञ्चमोऽध्यायः